कृष्णयजुर्वेदतैतिरीयारण्यके प्रथमप्रश्नः प्रारम्भः अरुणप्रश्नप्रारम्भः श्रेमाक्षाः श्रीरङ्गी सुष्ठुवासस्तनोभिः क्षेमदेवैः तन्यदायुः स्वस्तिर इन्द्रो वृद्धश्रवाः स्वस्तिरः पूषा विश्ववेदाः स्वस्तिरः साक्ष्यो हरिष्वनेभिः स्वस्ति न बृहस्पतिप्रधातु ॐ शान्ति शान्ति शान्तिः दि, भद्रङ्गर्णेभिश्नुयामदेवाः ेमाक्षभिः श्रीरङ्गी सुष्ठनोभिः कन्याय स्वस्ति न इन्द्रश्ववेदाः स्वस्त्रिनस्ताक्षरिष्टनेभिः स्वस्ति नागहस्तनिर्दधातु आपमापामपः सर्वाःस्मानिको मुखः कर्यनिर्वायिष्वशूर्यश्च सह गङ्गस्करधिया वायवश्वारश्मिवयः प्रीत्यात्मानो द्रुहः देवे पवनसूवरे पुत्रवत्त्वायमे सुदा महामेर्महामानाः देवे पद्यसूवरे पुत्रवत्पायमे सु अपा सृष्टिमुकार्यमुकारम् अपदेवीरिदोहिता पुत्रम् देवीरीरा भवनन्देवसूवरीः आदित्यानन्देवी भवन्तु दिव्यासस्वतीयम् वेदैरादित्यमण्डलम् सर्वैरेव विधात्ते सर्वस्मापाकविशेषेण स्मृतङ्गालविशेषणम् तदेव लक्षणे अमनिश्चमः समारूढप्रदृश्यते संवत्सरप्रत्यक्षेण भवति शुक्रन्दे अन्येवासि विश्वाहि मायावधिस्वधावः राजे भूषण्यहरातिरस्विति नात्रभुवनम् न भूषा न पशवः मादित्यः संवत्सर एव प्रत्यक्षेण एतत् महार्थोत्पत्स्यमानो भवति इदम् पुण्यम् कुरुष्वेति तेषामिष्टानि विहितानि धाम स्ति प्रवेद सुकृतस्य शुक्लवाला भीष्मेश्वरूपाणि वा साकुञ्जी आदितानां निबोधत सम्मतश्रेणं कर्मभरणं अपराभक्तवदागुङः प्रदोषो दुःखक्षरेवा तद्मावेदेवदृशये श्रीदेहा आवृत्यन्निवा प्रदोषेवदृशये भवादेते प्रदोषीवा श्याम्यदस्य अक्षरे 50 50 प्रग्ग्वसिन्दे सम्मतसरात्ता प्रग्ग्वसिन्दे याप्रदिश्यन्दि सम्मतसरेदा प्रदिशष्ठंदि परशाभ्येत तथा अक्शितं कान्तस्य यः कृत्स्नय गृणिके आनदेदाक्षणास्ति प्रभुनां धन्यवादता कनकाभानिवासा गुम्सी अहदानिनिबोधता अन्नवश्मितेमर्जमिदा अहम् वालि वप्रदः एता बाजप्रेद्यन्दे सरजत्र प्रादर्शिदे अभिदन्मन्तो हिमन्दैव पादवन्तो रुक्णां हमतो जेतमिसमुखमेका सन्मत्था सहदन्शेहा अवद्रस्ते वस्तिवर्णैरिवा ीतो भवति सत्यदा अम्रानि वासागुजे अष्टवद्य सवज्ञिला इष्वेदेवाः प्रहरन्ते अर्गयेपासस्यदा देविरदेवानुमत्यः नराजा वरुणोविभव आक्षमेन्द्रोणुपममानः आवतुक्त्त्स्य निज्जदे दिव्यस्य गादन रत्ने दिव्यमपराश्रिता तस्येन्द्रोमृलोपेणा धनवत्या मच्छिनच्छयम् तरेन्द्रधनरत्त्यं अभ्रवर्णयेषुक्षिक्षेदे एतदेव देवसिंयोपवारस्पतस्य तेतत्रत्नस्य धनः तनुचतेव तनुरत्नि श्लोपिवेशा सप्रज्ञभवत् तस्मान्य सप्रज्ञने ध्यानयिजदे तत्रस्य सरप्तुधावि नेत्रमुर्द्रा ने भवति एम्मेदा द्वादश अक्षो दृष्टाद शेषप्रस्य नैवरोवन्नवासागुसे नजक्षो प्रदेसुले अन्यान् नन्दनैकोत्सादा प्रश्नते वलक्षणं दाहिनाक्षिनारशेषति सूर्यस्य दयनम प्रदेति अङ्करोऽजिञ्ञन्दिर्का अङ्करोऽजिदान्दराम विद्यानग्रामे काम, नन्दिर्का अमिवाचमकवा सदामिति अस्मै सर्वालोदनुन्दे मर्यादाकृत्वा प्रप्रोधाम ब्राह्मणआत्मोदि एवम् वेदा सकलसंवत्सरे एदैसैनानी विस्तः इन्द्राय सर्वान् कामाभ्यदयि सद्रप्सा तस्सि जावदी तवद्रप्सा गुणस्मदी मदष्टल यानकृष्णदर्शविस्तः स्त्रीहि ण्डलानि सूर्यमण्डलाख्यायिकाः आरोग्यप्रजापटलपदंगः स्वर्णराजज्योतिरीमानो राजा येस्मिन् सर्वे देवा माता वन्दि पूर्वकेन महानानां नबसपन्तैति तस्य पष्टम समावीरनयहाति तस्श्रीशापति यत्ते अवघमस्य वराज नामक मुदरयावपुष्करं चित्रभानो यस्मिन् सूर्यात्पिदा सप्तसागम् तस्मिन् राजा मदिश्रयेन अमिति एतस्मिन् रूपे शिवात् जदन वन्दे ताम श्रवर्थसिवादिनि कथमेति ैवम् प्राणो जीवानिन्द्रियजीवानि सप्त इत्याचार्याः सप्तकर्णश्च प्राक्षिश्यविगयनोश्यो वेदैतेव महामेरुम् जन्तम् अपश्यमामेतत्सूर्यमानम्प्राणत्रागः गच्छन्त महामेरुम् वेगन्धा जहतम् राजपटर्याक्षिणा इति सप्तत्रिशूर्या इत्याचार्याः तेषामेषा भवति सपदिशमाना सूर्याः इति सूर्यमण्डलान्यष्टादवर्धम्प्रति <Sessimus> आलप आप सन्विषन्दे आपसुरे समाहिताः अभ्राणा निवकप्रवत्यन्ते विदत्ये सूर्ये समाहिताः मानवमेहि भोभि इञ्जा सदरदसि हिगसुदत्त्रां अंधराभूतम् येने मेविगतते उभये विष्णुना गृद्रे भूमी तिरत्ससरेदना इरावतेन उपदीघभूतम् सुवे वसने महाश्रेदस्ये यस्तपमान् प्रोष्य विष्णुवेदे ेवः विष्णोत्तमम् अग्रे वायवश्चैव एतदस्य परायणम् पृच्छामि त्वापरम् वृत्तिम् अवमम् मध्यमञ्जुलम् भौगण्यपुण्यपापानाम् एतत् पृच्छामि सम्प्रति अवमाः परम् मृत्युम् अपमानन्तो चन्द्रमाश्चभोगाः परम् मृत्युम् पापाः सन्यन्ति तत्पदा महाभोगास्वेवन्ति यत्र पुण्यकृतो जनाः सम्प्रति यदि पापान्यसर्वदान्तर्देशेषु तत्रन्यस्य पुण्यस्य कर्मणः अपाण्यपादकेशासः तत्र तेयो निजाजनाः कृत्वा पुनम् मृत्युमा बुध्यन्ते ष्टपुरुषस्य तस्यै भव एकादशिकोद्युता पुरुषाश्यामाः अपिताः मूर्ध्वा वदन्धाश्च वैद्युत इत्येकादशात् नीनम् वैद्युतो हिनस्ति एवं वेदा सह वाचव्या साचार्याः विद्युद्वदमेवं वेदान्धर्गुणाः स्वानुग्राङ्गारिकम्भारिः वस्वस्वहस्तः विशालुविश्वावधो मूर्धन्वान् सूर्यवर्ताः ची अष्टावी नौपदी बभूषी सहस्राक्षरापरमे व्योम्निधिणम् अथ निगतव्याख्याताः क्रमिष्यामः क्तिविपरीताःरिताःकानभिवर्षन्ति येषामेषा भवति समानमेतदकम् चाहभिः भूमि श्च ब्रह्मणा वीर्यावता शिवानप्रतिशः तच्छोरावृणीभे गातुम् यज्ञाय गातुम् यज्ञपदे देवी स्वस्तिरस्वनः स्वस्तिर्मानुषेभ्यः ऊर्ध्वन्निगातु भेषजम् ष्पदेवा इति विश्वस्य बृहस्पति वा इति श्रीभुवम् शुक्रं वा मन्यते शतं वा मन्यत विश्वरूपे हरिो निश्वाहि मायावधस्वनागदस्वयौ ताश्विना राजभागतम् सूर्यया सह शुक्रोह भज्विनाथमेघेवा मनोहतन नोबिरा आत्मन मदेवे अन्तरिक्षप्रभर्पादगवे तिस्राक्षवस्त्रहार नम्रजज्ञे न सच्चा भुज्यो हतफदनै समुद्रस्य धर्मनार्थस्य बारे भेरधयेय शदव कृष्णस्मि सुविदारिमिदं मन्तम् 64 सामवरा ताववोरमरस्यवा सुविदारे वसावगत जीवो सदपुमिरितलैवा भगव स्वामी ब्रह्मसे अम्मेयद्रक्रावक्रियान्थम े पृथिव्याः दिवोरात्रिः आष्टौ नयोरेतौ वत्सौ अग्निश्चादित्यश्च रात्रे रुत्सः श्वेतःदित्यः अनुभोग्निः नाो हृणः नाविरुष्टौ दम्पती एव भवतः तयो रेतु वत्सौ रुद्रस्य वैद्युतस्य ऋग्ने रुद्रः वेद्युतादित्यस्य ताविदृष्टौ दम्पती एव भवतः तयो रेतु वत्सौ युष्माचिनिहारस्य रुद्रस्योष्मा वैद्युतस्य निहारः भवता वेगप्रतिपद्येते तस्या वा एतदुल्पणम् एवमेतस्या एवम् एतमत्यन्त अथ पवित्रा पवित्रवन्तः पविभाजमासते महत्समुद्रम् वरुणस्य रोदहे धीराच्छेभरणेष्वारभम् पवित्रम् देवि क्षत्रमेति ीस्मि स्थावरोस्मि भूतान्यस्म्यहं विभो श्री ीणापणितम् यदि प्रविशेदरिसम्भवस्य वृतम् आत्मज्ञेरसंकाश्वमेकयोजनम् एकदिभ्रमेकधनम् न्द्रवसे ख्याता सहस्राणि स्मर्यतेन एवमेतन्निबोधता मामन्द्रैरिन्द्रहरिभिः याहि मयूररोगभिः मात्वारिन्द्रहरिभिः यामि मयूररोगिभिः मार्गेन्नपाणः द्विष्टेन समायुधैः श्वस्य मेले गौरावस्कन्दर्यायी जाला कौशिकब्राह्मणगौतमप्रवाणश्वायहागताः प्षट्धाणिया, अनिस्कयात, प्राम्राश्या, आस्तामृटाह, ताम्र्णन्ना, आस्ताधासिता, नम्रणास्ता, आक्का, दृक्ताह, उ्तारत्ना, आफ्पराःगृटाह, उत्दक्र sights-ta-ृoff my seems. ले con beginning- bewusst bedroom einen object, Dr. di must be blind. Gτά pew That is a In a ष्टपुत्रम् पदितमन्तरिक्षम् अहं वे धनमे मृत्युः रुजामृत्युरथाहर अष्टयोनिमष्टपुत्राम् अष्टपत्नी अहं वे धनमे मृत्युः रुजामृत्युरजाहते रामाणं हि मूषु अदिर्त्योर्दितरन्तरिक्षम्मातासपिता पुत्रः विश्वे देवादितिः पञ्चजनाः अष्टोपुत्राः पुत्रैः पुत्रैरः क्रमिश्यामः पुत्रश्च भ्राताचार्यमाचार्यनुजश्च भगश्चवागश्चनन्दीभत्रादाभृत्यः पुरुषस्तु योऽसो तपन्मृदेति स सर्वेषाम् भूतानाम् प्राणानादायोदेति मामे प्रजायामापशूनाम् मामो प्राणानादायोदगाः असूयोऽस्तमेति स सर्वेषाम् भूतानाम् प्राणानादायास्त मामे प्रजायामापशूनाम् मामो प्राणानादायास्ताः असूया आपूर्यति स सर्वेषाम् भूतानाम् प्राणैरापूर्यति मामे प्रिजायामापशूनाम् मामो प्राणैराभूरिष्ठाः सयोभक्षीयलि स सर्वेषाम् भूतानाम् प्राणैर्वक्षीयलि मामे प्रिजायामापशूनाम् मामो प्राणैर्वक्षेष्ठाः नमोनि नक्षत्राणि सर्वेषाम् भूतानाम् प्राणैर्भक्प्रसत्पन्दिजोत्सत्पन्दिजा मामे प्रिजायामापशूनाम् मा मम प्राणैर्व प्रसृपधमोत्सुवता मे मासाश्चार्धमासाश्च सर्वेषाम् भूतानाम् प्राणैर्व प्रसर्पन्दियोजोत्सर्पन्दिजा नामे प्रजायामापशूनाम् मा प्राणैर्वप्रसृपधमोत्सुवता इमा ऋतवः सर्वेषाम् भूतानाम् प्राणैर्व प्रसर्पन्दियोजोत्सर्पन्दिजा नामे प्रजायामापशूनाम् माम प्राणैर्वप्रसृपधमोत्सुवदायो संवत्सरः सर्वेषाम् भूतानाम् प्राणेर्वक्प्रसर्पदिकोत्सर्पदि च मामे एप्रजायामापशूनाम् मामव प्राणैर्वक्प्रसुभमोत्सुभ इदमहः सर्वेषाम् भूतानाम् प्राणेर्वक्प्रसर्पदिजोत्सर्पदि च मामे अप्रजायामापशूनाम् मामव प्राणैर्वक्प्रसुभमोत्सुभ इयुरात्रिः सर्वेषाम् भूतानाम् प्राणैर्वक्प्रसर्पदिजोत्सर्पदि च मामे अप्रजायामापशूनाम् प्राणैरमप्रसुमोत्सुभुवस्व हेतत्वम् मानो मित्रेश्वम् अथादित्यस्याष्टपुरुषस्य सूनामादित्यानागस्थाने स्वदेशसाभानि पुत्राणामादित्यानागस्थाने स्वदेशसाभानि आदित्यानामादित्यानागस्थाने स्वदेशसाभानि सदागोधत्यानाम् आदित्यानागस्थाने स्वदेशसाभानि अभिनोन्वतामभिघ्नताम् आदवताम् मृताम् वः रश्मयोधर्मानो मिथनोरेध्वम् आरोग्यस्य स्थाने स्वदेशताभानि स्थाने सुदेवताभानि वारस्य स्थाने सुदेवताभानि तदङ्गस्य स्थाने सुधेदाभानि स्वर्णरस्य स्थाने सुदेवदाभानि स्थाने सुदेव विवातस्य स्थाने सुदेवदाभानि शिवस्य स्थाने सुधेन मिथुम्मानो मिथुनगोरेकादश पुरुषस्य एकादशस्त्रीकस्यायमानानागमूर्त्राणागस्थाने सुदेवताभानि यगदातानागमूत्राणागस्थाने सुधेन नित्राणागस्थाने सुदेशानि अवदन्तानागोत्राणागस्थाने सुदेशदा भानि वैद्युधानागोत्राणि नागोत्राणि नागस्थाने नागोत्राणि नागस्थाने सुधेन सुधेन रजता नागोत्राणि नागस्थाने सुधेन सा भानि कृषानागोत्राणि नागस्थाने सुदेवसा भानि श्यावानागोत्राणि नागस्थाने सुदे अमिला नागोत्राणि नागस्थाने सुदेवसा भानि अतिरोहितीनागूर्त्राणि नागुस्थाने स्वदेजसाभानि ऊर्ध्वा नागूर्त्राणि नागुस्थाने स्वदेशाभानि अवपदन्दीनागूर्त्राणि नागुस्थाने स्वदेजसाभानि वैद्युदीनागूर्त्राणि नागुस्थाने स्वदेजसाभानि ओम् भोद्भवस्वः रूपाणि वो मित्रम्मा नो मित्रम् अथाग्नेरष्ट्रपुरुषस्य अग्ने पूर्वदिश्यस्य स्थाने स्वदेशसाभानि ज्ञातवेदसोपदिश्यस्य स्थाने स्वदेशसाभानि ीकिराजसे सुधेन्द्रिसर्पिणोपदेश्यस्य स्थाने सुधेन्द्रि ओं भोर्भु स्वाहा विशादी अस्मान्नः परिबाहि दक्षिणावरस्यात् उपदशताम् उपदसताम् पश्चात् उपदताम् इशुरकर्मणाम् अष्टावैरुपरिष्टादर्वादि आपृथिव्याम् आयुरन्तरिक्षे सूर्यो दिवि चन्द्रमादिक्षु नक्षत्राणि स्वलोके एवाहि एवा, एवा, एवा, एवा वायो एवाहि इन्द्र एवाहि भूषन् एवाहि देवाः आपमापापः वा अस्मादस्मादितोमुतः सूर्यश्च सहजस्पर्धिया स॥दा, यमे सुवरीपायमेष्णुपार्क्षुपामपचावृतिम् अपदेवीर्दोहिताष्टा भुवनम् देवसूवरीकानेवीषुता धातु केतवो वादर्शनाः सायि समाहिता भवन्तु दिव्यापवौषधयः सरस्वती मा देव्यो मन्दृति यो पां पुष्पम् पुष्पवान् भ्राजावान् चन्द्रमापान् एवम् वेदा यो पामायतनम् वेदा आयतनवान् भवति आयतनवान् भवति यो नैरायतनम् वेदा आयतनवान् भवति आपवाग्नेरायतनम् एवं वेदायतनम् आयतनवान् भवति वायुरायतनम् आयतनवान् भवति एवं वेदा यो पामायतनम् वेदा आयतनवान् भवति असौ वैतयुतनम् आयतनवान् भवति यतनम् चन्द्रमापामायतनम् आयतनवान् भवति यश्चन्द्रमसा आयतनम् वेदा आयतनवान् भवति आ भवे चन्द्रमसा आयतनम् आयतनवान् भवति एवं वेदा यो पामायतनं वेद आयतनवान् भवति नक्षत्राणि यो नो वा मायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनम् वेद आयतनवान् भवति आ भोवी पर्जन्यस्यायतनम् आयतनवान् भवति वेद युतनम् वेदा आयतनवान् भवति यायतनम् आपोत्सरस्यायतनम् आयतनवान् भवति य एवं वेदा यो ओप्सुनातिष्ठिताम् वेदा कृत्येवै लोकाप्रतिष्ठिताः समुदयगुंसन्न सूर्ये शुक्रगुणं समावृतम् वागुरस्य तम्बो गृह्णामित्तममिति समाभृताणे ब्रह्मवादिना वदन्ति तस्मात् प्रणीरेऽप्यनाहिताच्चरे सावित्रेण नाचिकेतमग्णान् प्रत्यक्षेण भोवामि भवति एवं वेद अभव्य इह मनसकलमेव सप्रजापदरेखा पुष्करवर्णाय समभोद तस्यां धर्मनजगवस्तमर्तदा तिलकमोजये इति तस्माद् धृष्टृणासा व्यक्षते तत्राच वादने ततकर्मणा करोति तदेषाभ्यनोक तत ीरमसो तस्य ष्वेति चिदायापः अञ्जलिना पुरस्तात्पादधात् देवाचै अधारुणकेतुर्दक्षिणतोपादधात् एवाक्यग्नि ततो वाग्निरतिष्ठद सा दक्षिणादिक अधारणकेतुर्पश्चादुपादिधात् एवाहि वा यो ततो वायुवतिष्ठद साजीदिव अधारणकेतुरुत्तरतोदधात् एवाहीन्द्रेति ततो वा इन्द्रोतिष्ठद सोऽधिजीदिव अधारुणकेतुर्मध्य उपादधात् एवाहि पूषन्वि ततो वैपूषोदतिष्ठद सेयन्दि अधारणकेतुपृष्टादुपादधात् देवा हि देवा हि ततो देव मनुष्यात् बृहदे सर्वम् तस्मादितको सर्वकौ शिथिलमिवा धमिवा भवत प्रजापतिर्वावत आत्मात्मानम् विधाय तदेवान्प्राविशत तदेशाभ्यो वा विधाय लोकान् विधाय भूतानि सर्वाः प्रतिचोद्यस्य प्रजापतिप्रतिविजा आत्मनात्मानमभिसंविवेशयति सर्वमेवेदमात्मा सर्वमवृद्ध्या तदेवानुप्रविशति हें वेद अजिष्ठय आभागवर्णादि चत्त्वारिवाभागो रूपाणि मेघविद्युतस्तमितरवृष्टिः तान्नेवावरन्धे आदवदवर्षाग्रणादि ताः क्रोस्तादवदनादि हेतावि ब्रह्मवर्चस्स्याभा मुखदैव ब्रह्मवर्चनमवरन्धे तस्मान् मुखदा ब्रह्मवर्चिदः उप्यागनादि खानक्षनोदवदनादि हेतावि तेजस्विनीराभा तेजेवाsdxनोदवदधाते तस्माद्क्षवर्चोर्द्धस्तेस्विदरः गृह्णाति सा पश्चादपदधाति प्रतिष्ठितारतो ददाति तस्मादुत्तरोर्थितः संहार्या गृह्णाति तामत्रयि संहार्याः अस्यामेव प्रतिष्ठति अल्मल्या गृह्णाति जली प्रिष्टाद बाद धादी अधुव अल्वॉल्या हुमश्यामे वप्रतित चली जिक्षुपर्द धादी जिक्षुवाबाप अन्माबाप तब्योवान नँजाई दे वाप योण निंजाई तदवरंदे अंबाएदम्रणाख यतो आधर शिणाशेचिन्मन्नो� समाहिता त्युपदधाति तपो वै पुष्करवर्णं सत्यगोरुक्मः ृह्ने तथोस्य समष्टिः सर्वाःस्मादितोमतः अग्निर्वायुश्च सूर्यश्च सहसञ्जस्कर्धियादि वायुश्वादस्मृतयः लोकम् ऋणच्छिद्रम् यास्ति उपदधादि सावने वार्ते संजने देहं लोकमकुर्या द्वितीयं उपददाति अनुद्रवदावेनारः तस्यावाइमबाधा नम्रिक्षं बाधा योगपाधा ऋषपधा प्रौढजपधा इराज्येव प्रदृष्टति तेतोऽटिनिसुलते योजयेन मेमवेदा अज्ञं प्रणीयावसमाधाया नमविदयता अविष्टरा उपददाति अज्ञात्रयदर्शपूर्णमासेव अथवा शुभन्धेजात्मान् शेषो अथवा हो सर्वे यज्ञे प्रदृष्टति ञ्जिह्वानः नाजिगेतमटिन्मानः चातुहोत्रीन्वानः पुसावर्धि प्राणो तस्कस्फालयेत अन्नेदासिज्ञ तस्मान् अनुषद्यो औत्तरमेदेशुक्मदुष्यतिमेदा उत्तरवेद्यविज्ञेत्यसिदे प्रजाकामश्चिन्वेदा राजाभक्तवः ईशौ अग्निः राजाभक्तस्य प्रजाः प्रजावान् भवति केवम् वेदा पुषकामश्चिन्वेदा सङ्कामभायत् पशुनां वेदापः पशुनां देवसंज्ञानेत्यन्गुरुजे दे, स्वाम्भक्तिः एवं वेदा शुक्तगामश्चिन्वेदा आबोवे गुष्टिः पतञ्ञो अरु शुभोमोदि एवं वेदा आमे अभिजनवेदा आबोवे भेषेन यष्टमे वाजनेय करोति सर्वम aided अभिचरकपुष्टिनवेदा अद्रवापः यद्यमेव प्राद्रुहयेऽज्ञप्तहरदि चन्द्ररेण तेजस्काभौशस्कामह ब्रह्मार्चसगामस्वर्गगावस्तिनवेदा एता उपवावास्ति क्यावदेतव क्यावदेवास्ति धावेद पुष्करवर्णानिरन्यं वा एतस्यात्मैर्ध्यारोहाय न गोमस्याश्नीयात् नदस्यकान्येन वादकानि भवन्ति अघातुकाभः त्यरिन्द्रस्य गणो मध्ये अस्माकम्प्रवस्व आण्डीभौ जमा भुः सुखादीन्दुःखनिजनाम् स्वाम्भुरम् भुवाः लीलाख्यास्मदीरिषद तिष्ठतमा स्वप्ता अग्निनैच्छं भारताः प्राज्ञोमस्य दुर्वासः सूर्येण सजोसः युवासुवासाः अष्टाचक्रानुद्वारा देवानाम् पूर्वयोध्या तस्यागो हर्मयः कोशः स्वर्गोक्रः योगीताम् ब्रह्मणो वेदा अमृतेनामृताम् प्रीम् तस्मै ब्रह्म च आयुष्कीर्तिम् प्रजान्ततोीवृताम् पुरगो हिर्मयीम् ब्रह्मा ेषा पराजिता प्राेत्यःपेक्षन्ते अस्माल्लोकादमुष्माच्चः नूतनाः हिमो ददात्वसानोऽस्मिन् पृष्टाय च पृष्टजाः कलीषु धारणेषु जयहिताः वेदपीताण्डपीताः अङ्गारेषु जयेहृताः भयान् कुत्रभौत्रकान् विवेहिन्यकान् सदनमिन् शरदः अतो यत् ब्रह्मगलभम् दृणाञ्चेमस्य च करणस्याश्विनः स्मि सनातनक्षम्भोशोदनम् स्वानुवाच्यायया सह हट्ने नासी सन्दृशः ईर्षासूय भक्षा मन्येशिकावता हे नासी सन्दृशः पर्जन्यायप्रगायिताकृष्णे सन्वस्मे श्रीविप्लावषधेपाः योगर्भमौषधीनाम् प्रवान् पुरुषीणाम् पुनन्मामैक्न्द्रियम् पुनरायुः पुनर्भगः पुनर्ब्राह्मणमयितुमा पुनर्प्रविणमयितुमा इदृपस्कान् य वृक्षे लक्ष्मक्षिते तन्महाजाय दे पुनः तेन मामृगम् गुरु तेन स्वजम् गुरुस्तिरोधाजायैश्वरोधेनान्नः त्वाष्टयीम् मायाम् वैश्रवणः अथस्रमन्धुरम् पुनश्चक्रगुरुसहस्राश्व महागिरौ सट्टारन्त इति मन्त्राः कल्पोतूर्ध्वम् यदि अथ परिमोहतोपतिष्ठेत शत्री श्रवणः ब्राह्मणा कृष्ण नमस्ते अस्तु यस्मिन्नकर्मीव तिरोधास्वः त्रोधा भूभूस्वः स्वेताम् लोकानामाधिपत्येभी देवीता यस्मिन्नकर्मीता रोधा भू स्वाहा तिरोधा भू स्वाहा सर्वार्था ञानता सर्वार्थान्ते तस्मादि वक्रमिण्डं वै श्रवणाय श्रवणो ददातु वैराय वै श्रवणाय राजाय नमः दिव्याभोषदयः ेव्याम सन्दृशि संवत्सरमेतत्प्रसञ्चरेत् नो वा मासो तस्मिन् चतुर्थकालपानभक्तः स्यात् हरहर्वाभैक्षवशीयात् औदुम्बरीम् परिचरेत्मामेन्द्रियमिच्छेदेवाकेणकार्यम् असञ्चयवान् अग्ने वायवे सूर्याय ब्रह्मणे चन्द्रमदे नक्षत्रेभ्यः ऋतुभ्यः संवत्सराय अरुणायाः अरुणाः काण्डऋषयः अरण्येधीते श्वानश्यन्दमेत्योषधीरा लभते सुम् एवमवर्गे धेनक्षिणा कगोसंवासश्च क्षोमम् अन्यद्वा शुक्लम् यथाशक्ति वा स्वाध्यायधर्मेता तपस्वी पुी पुः श्रेष्ठदायुः स्वस्य न इन्द्रो वृक्षश्रवाः स्वस्ति नूषा विश्ववेदाः स्वस्य नक्षोऽष्टनेमिः स्वस्य नोत्तू ओम् कृष्णयजुर्वेदतैत्तरीयारण्यके प्रथमः प्रश्नः समाप्तः समाप्तः